अथ दशमः सर्गः तदतः तमुपागतम् अहम् प्रसादयाञ्चक्रे भ्रातरम् हितकाम्यया दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया अनाथस्य हि मे नाथत्वमेको नाथ पूर्णचन्द्रमिवोदितम् छत्रम् सवालव्यजनम् प्रतीच्छस्वमया धृतम् वार्तस्तस्य तस बिलद्वारि स्थितः संवत्सरम् नृप दृष्ट्वा च शोणितम् द्वारि बिलाच्चापि शोकसंविग्नहृदयो भृशम् व्याकुलितेन्द्रियः अपिधाय बिलद्वारम् शैलशृङ्गेण तत्तदा तस्माद्देशादपाक्रम्य शिष्यन् धाम् प्राविशम् पुनः विषादात्विह माम् दृष्ट्वा पौरैर्मन्त्रिभिरेव च अभिषिक्तो न कामेन तन्मे क्षन्तुम् त्वमर्हसि त्वमेव राजा मानार्हः सदा चाहम् यथा पुरा राजभावेन योगोऽयम् मम त्वद्विरहात्कृतः सामात्यपौरनगरम् स्थितम् निहतकण्टकम् न्यासभूतमिदम् राज्यम् तव निर्यातयाम्यहम् मा च रोषम् कृताः सौम्य मम शत्रुनि शूदना याचे त्वाम् शिरसा राजन्मया बद्धोऽयमञ्जलिः बलादस्मिन् समागम्य मन्त्रिभिः पुरवासिभिः राजभावे नियुक्तोऽहम् शून्यदेश जिगीषया स्निग्धमेवम् ब्रुवाणम् दिक्त्वामिति च मामुक्त्वा बहु प्रकृतीश्च समानीय मन्त्रिणश्चैव सम्मतान् मामाह सुहृदाम् मध्ये वाक्यम् परमगर्हितम् विदितम् वो मया रात्रौ मायावी समहासुरः माम् समाह्वयत क्रुद्धो युद्धाकाङ्क्षी पुरा तस्य तद्भाषितम् श्रुत्वा निःसृतोऽहम् नृपालयात् अनुयातश्च माम् तूर्णभयम् भ्राता सुदारुणः स तु दृष्ट्वैव माम् रात्रौ सद्वितीयम् महाबलः प्राद्रवर्धयसन्त्रस्तो वीक्ष्या वाम् समुपागतौ अभिद्रुतस्तु वेगेन विमेषसमहाबिलम् तम् प्रविष्टम् विदित्वा तु सुघोरम् सुमहद्बिलम् अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः अहत्वा मे शक्तिः प्रतिगन्तुमितः पुरी बिलद्वारि प्रतीक्षत्वम् यावदेनम् निहम्यहम् स्थितोऽयमिति मत्वाहम् प्रविष्टस्तु दुरासदम् तम् मे मार्गयतस्तत्र गतः संवत्सरस्तदा स तु दृष्टो मया शत्रुरणिर्वेदाद्भयावहः निहतश्च पूर्णमासीद्दुराक्रामम् स्तनतस्तस्य भूतले सूदयित्वा तु तम् शत्रुम् विक्रान्तम् तमहम् सुखम् निष्क्रामम् नैव पश्यामि बिलस्य पिहितम् मुखम् विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः यतः प्रतिवचो नास्ति पादप्रहारैस्तु मया बहुभिः परिपातितम् ततोऽहम् तेन निष्क्रम्य पथा पुरमुपागतः तत्रानेनास्मि समृद्धो राज्यम् मृगयतात्मनः सुग्रीवेणंसेन विस्मर्त्य भ्रातृसौहृदम् एवमुक्त्वा तु माम् तत्र वस्त्रेणैकेन वानरः तदा निर्वासयामासवाली विगतसाध्वसः तेनाहमपविद्धश्च हृतदारश्च राघवा तद्भयाच्च महीम् सर्वाम् क्रान्तवान् सवनार्भवाम् ऋष्यमोकम् गिरिवरम् भार्या हरणदुःखितः प्रविष्टोऽस्मि दुराधर्शम् बालिनः कारणान्तरे एतत्ते सर्वमाख्यातम् वैरानुकथनम् महत् अनागसा मया प्राप्तम् व्यसनम् पश्य राघवा बालिनश्च भयात् तस्य सर्वलोकभयापह कर्तुमर्हसि मे वीरप्रसादम् तस्य निग्रहात् एवमुक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम् वचनम् वक्तुमारेभे सुग्रीवम् प्रहसन्निव अमोघा सूर्यसङ्काशा निशिता मे शरा इमे तस्मिन्वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः यावत् तन्न हि पश्येयम् तव भार्यापहारिणम् तावत् स जीवेत् पापात्मा वाली चारित्रदूषकः आत्मानुमानात् पश्यामि मग्नस्त्वम् शोकसागरे त्वामहम् तारयिष्यामि बाढम् प्राप्स्यसि पुष्कलम् तस्य तद्वचनम् श्रुत्वा हर्षपौरुषवर्धनम् सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत् शे श्रीमद्मा आदि आदिकाव्ये किंडे दशम सर्ग